श्रीहरये नमः अत अष्टादशोऽध्यायः श्रीशुक यतिर्ययाति संयाति रायतिर्वियतिकृतिः षडिमेन कुश्यासन्निन्द्रियाणि व राजम् नैश्चत्यतिः पित्रा दत्तम् तत्परिणामवित् यत्र प्रविष्टः पुरुष आत्मानम् नावैबुध्यते पितरिभ्रंशिते स्थानात् इन्द्राण्या दर्शनाद्विजैः प्रापिते जगरत्वम् वै ययाति अभवन्नृपः चतश्रुष्वाधिसद् दिक्षो भ्रातॄन्भ्राताय वीयसः कृतधारो जुगोपूर्वे काव्यस्य वृषपर्णवः राजोवाच ब्रह्मर्षेर्भगवान् काव्य क्षत्रभन्तुश्च नाहुशः राजन्य विप्रयोकस्माद् विवाहः प्रतिलोमकः श्रीशुक उवाच एकदा धानवेन्द्रस्य धर्मेष्ठा नाम कन्यका सखी सहस्रसंयुक्ता गुरुपुत्र्या च भामिनी देवायान्या पुरोद्याने पुष्पितदृसमसङ्कुले व्यचरत्कलगिताले नळिनी पुलिने बला ता कन्याकमललोचनाः तीरे नस्यस्य दुकुलानि विजगृसिं च तीर्मितः सह देव्या वृषस्थितं सहसोत्तीर्य वाशां शे पर्यधोर्ब्रेडिदास्त्रियः सर्मिष्टा जानती वा सो गुरुपुत्र्या समव्ययत् स्वीयं मत्वा प्रकुपिता देवयानीदम् अब्रवीत् अहो धास्त्या कर्म ह्य साम्प्रथम् अस्मद्धार्यं ध्रुवति सनीवहविरध्वरे यैरिदं तपसा सृष्टं मुखं पुंसपरस्य ये धार्यतेर्यैरिहज्योति शिवः दर्शितः यान् बन्दन्ति उपतिष्ठन्ते लोकनाथा भगवानपि विस्तात्मा पावनश्रीनिकेतनः वयं तत्रापि भृगव शिक्ष्यो स्यानः पिता सुरैः अस्मद्धार्यं धृतवती शूद्रो वेतमिवा एवं सपन्तिं शर्मिष्ठा गुरुपुत्रीमभाषत रुषा स्वसन्त्युरङ्गीव दर्शिता दष्टधच्छ आत्मवृत्तम् अभिज्ञाय कर्तसे बहुभिक्षुके किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजोयत एवं वितैः सुपरुषैः क्षिप्त्वाचार्यसुतां सती सर्मिष्ठा प्राक्षिपत्कूपे वास आधाय मन्युना तस्यां गतायां स्वगृहं ययातेर्मृगयां चरन् प्राप्तो यदृश्चया कूपे जलार्तीतां दतर्सः दद्वा समुद्रं वासस्तस्य राजा विवाससे वाससे गृहीत्वा पाणिना पाणिम् उज्जहारदया परः तं वीरमाहौ सनसि प्रेमनिर्भरया गिरा राजन्स्त्वया गृहीतो मे पाणिः परपुरञ्जया हस्तग्राघोपरो मा भूत्ताया त्वया हि मे नौ न पौरुषः यदि दं भवतो दर्शनं मम नः ब्राह्मणो भविता हस्तग्राहो महाभुजगचस्य भार्गस्पत्यस्य साभात्यमसपं पुरा ययाति अनभिप्रेतं दैवोपहृतमात्मनः मनस्तोधग्गतं बुद्ध्वा प्रति जग्राहतद्वचः गते राजनि सा वीरे तत्र स्मरुदति पितुः न्यवेदयत्ततः सर्वमुक्तं सर्मिष्ट्या कृतं दुर्मना भगवान् काव्य पौरोहित्यहयन् स्तुभन् वृत्तिं च कापोते दुहित्रासयौ प्रत्यनीकविवक्षितं गुरुं प्रसाधयन् पादयो पथितः पथि क्षणार्धमन्योर्भगवान् शिष्यं व्याचष्टभार्गवः कामोऽस्याक्रियतां राजन् नैनां त्यक्तुमिहोत्सहे तथेत्यवस्थिते प्राह देवयानीमनोगतं पित्रा धत्ता यथो सानुगायातु मामनु स्वानां तत्सङ्कटं वीक्ष्य तदर्थस्य च गौरवं देवयानीं पर्यचर स्त्रीसहस्रेण दासव नाहूषाय सुधां दत्वा सखर्मिष्ठयोशना तमागराजन् आदास्तल्पेन कर्हि चित् धर्मिष्टा स प्रजां क्वचित् तममे वौरेरहसे सख्यापतिमृतौ सती राजपुत्रार्तितोपत्ये धर्मं चावेक्ष्य धर्मवेत् स्मरञ्चुक्रवचःकाले दिष्टमेवाव्यबध्यत यदुं च दुर्वसं चैव देवयानी व्यजायत द्रह्युं चानुं च पूरुं च शर्मष्टा भर्तुर्विज्ञायमानित्नी घर्मसम्भवमासुर्यां भर्तुर्विज्ञायमानिज्ञीं देवयानी पितुर्गेहं ययौक्रोधविमूर्छिता प्रियामनुगतकामीं वचोबीवुपमन्त्रयन् न प्रसादयितुं शेके पादसंवाहनादिभिः सुग्रस्तमाघः कुपित श्रीकामानृतपूरुष त्वां जराविसतां मन्ध विरूपकरणीनृणां ययातिरुवाच अतृप्तोऽस्मि अध्यकामानां ब्रह्मन् दुहितरिस्म्यते व्यत्यस्त्यथां यथा इति लब्धव्यवस्थान पुत्रं ज्येष्ठम् अवोचत यदो तादप्रतीक्षे मां जरां देहि निजं वयहा मातामहत्कृतां वत्स न तृप्तो विषयेष्वहं वयसा भवदीयेन समाह यतुर्वाच नोत्सहे जरसा स्थातुम् अन्तरा प्राप्तया सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः दुर्वसुश्चोदितः पित्रा दृहस्युश्चानुश्च भारत प्रत्याशक्यु अधर्मज्ञा ह्य नित्यबुद्धयः अपृच्छत्तनयं पूर्वं वयसो न नत्वं न त्वम् अग्रजवद्वत्स मां प्रत्याख्यातुम् अर्हसि पूरुरुवाच को नु लोके मनुष्येन्द्र पितुः आत्मकृतः क्षमो यस्य प्रसादात् विन्दधे परम् कुर्यात् प्रोक्तकारी तु मध्यमः अदमो श्रद्धया कुर्यात् अकर्तो चरितं पितुः इति प्रमुदितः पूर्व प्रद्यगृह्नाज्झरां पितुः सोऽपि तद्वयसा कामान् यथावज्जुजुषेन्द्र प सप्तद्वीपपति पितृवत्पालयन् प्रजाः यतोपजोषं विषयान् जुषुषे व्याहत इन्द्रियः देवान्यपि अनुदिनं मनोवाग्देहवस्तुभिः प्रेयसः परमान् प्रीतिम् उपाहप्रेयसीरकः अयजत्यज्ञपुरुषं क्रदुभिर्भूरि दक्षिणैः सर्वदेवमयं देवं सर्वभेदमयं हरिं यस्मिन् इदं विरचितं व्योम्नीव जलधावलिः नानेव भाति नाभाते स्वप्नमायामनोरथः तमेव हृतिविन्यस्य वासुदेवं गुहाशयं नारायणमणीयांसम् निराशी अच यत्प्रभुम् एवं वर्षसहस्राणि मनःसष्टैर्मनः सुखं विदधानोऽपि नातृप्य सार्वभौमगतीन्द्रियैः इति श्रीमद्भागवते महापुराणे नवमस्तन्ते अष्टादशोऽध्यायका सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरोनाथमहराजकी जय